अथ द्विचत्वारिंशः सर्गः ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् न्यवेदयन् पुरीम् वृद्धाम् रामेण सह वानरैः वृद्धाम् तु नगरीम् श्रुत्वा जातक्रोधो निशाचरः विधानम् द्विगुणम् कृत्वा प्रासादम् चाप्यरोहत सददर्शवृताम् लङ्काम् सशैलवनकाननाम् असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः स दृष्ट्वा वानरैः सर्वैर्वसुधाम् कपिलीकृताम् कथम् क्षपयितव्या स्युरिति चिन्ता परोऽभवत् स चिन्तयित्वा सुचिरम् धैर्यमालम्ब्य रावणः राघवम् हरियूथांश्च ददर्शाय तलोचनः राघवः सह सैन्येन मुदितो नाम पुप्लुवे लङ्कान्ददर्शगुप्ताम् वै सर्वतो राक्षसैर्वृताम् दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनी जगामसः सा सीताम् दूयमानेन चेतसा अत्र सा मृगशावाक्षी पीड्यते शोकसन्तप्ता निपीड्यमानाम् धर्मात्मा वैदेहीमनुचिन्तयन् क्षिप्रमाज्ञापयद्रामो वानरान् द्विषताम् वधे एवमुक्ते तु वचसि रामेणा क्लिष्टकर्मणा सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् शिखरैर्विकिरामैताम् लङ्काम् वा इति सर्वे मनाम् सि उद्यम्यगिरिशृङ्गाणि महान्ति शिखराणि च तरूंश्चोत्पाट्य विविधाम् तिष्ठन्ति हरियूथपाः प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः राघवप्रियकामार्थम् लङ्कामारुरुहस्तदा ते ताम्रवक्त्रा हेमाभारामार्थे ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः प्राकाराग्राण्यसङ्ख्यानि मम सुस्तोरणानि च परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान् पांशुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः कोटियूथशताश्चान्ये लङ्कामारुरुहस्तदा काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवङ्गमाः कैलासशिखराग्राणि गोपुराणि प्रमथ्य च आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः लङ्काम् तामभिधावन्ति महावारणसन्निभाः जयत्युरुबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः इत्येवम् घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः अभ्यधावन्त लङ्कायाः प्राकारम् कामरूपिणः वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा निपीड्योपनिविष्टास्ते प्राकारम् हरियूथपाः एतस्मिन्नन्तरे चक्रुस्कन्धावारनिवेशनम् पूर्वद्वारम् तु कुमुदः कोटिभिर्दशभिर्वृतः आवृत्यबलवांस्तस्थौ हरिभिर्जितकाशिभिः सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः पनसश्च महाबाहुर्वानरैरभिसंवृतः दक्षिणद्वारमासाद्यवीरः शरबलिः कपिः आवृत्यबलवांस्तस्थौ विंशत्या कोटिभिर्वृतः सुषेणः पश्चिमद्वारम् गत्वा तारापिताबली आवृत्यबलवांस्तस्थौ कोटिकोटिभिरावृतः उत्तरद्वारमागम्य रामः सौमित्रिणा सह आवृत्यबलवांस्तस्थौ सुग्रीवश्च हरीश्वरः गोलाम् गोलो महाकायो गवाक्षो भीमदर्शनः महा रामस्य पार्श्वतः वृक्षाणाम् भीमकोपानाम् धूम्रः शत्रुनिबर्हणः वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः वृतोयत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः गजो गवाक्षो समन्तात्परिधावन्तो ररक्षुर्हरिवाहिनी ततः कोपपरीतात्मा रावणो राक्षसेश्वरः निर्याणम् सर्वसैन्यानां द्रुतमाज्ञापयत्तदा एतच्छ्रुत्वा तदा वाक्यम् रावणस्य मुखेरितम् सहसा भीमनिर्घोषमुद्घुष्टम् रजनीचरैः ततः प्रबोधिताभेर्यश्चन्द्रपाण्डुरपुष्कराः हेमकोणैरभिहता राक्षसानाम् समन्ततः विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः राक्षसानाम् सुघोराणाम् मुखमारुतपूरिताः ते बभुः शुभनीलाङ्गाः स शङ्खारजनीचराः विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः निष्पतन्ते ततः रावणचोदिताः समये पूर्यमाणस्य वेगा इव ततो वानरसैन्येन मुक्तो नादः समम् ततः मलयः पूरितो येन ससानुप्रस्थकम् दरः शङ्खदुन्दुभि निर्घोषः सिंहनादस्तरस्विनाम् पृथिवीम् चान्तरिक्षम् च सागरम् चाभ्यनादयत् गजानाम् बृंहितैः सार्धम् हयानाम् ह्रेषितैरपि रथानाम् नेमि निर्घोषै एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यता रक्षसाम् च यथा देवासुरे ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः निजघ्नुर्वानरान् सर्वान् तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः निजघ्नुस्तानि रक्षांसि वेगिनः राजा जयज सुग्रीव इति शब्दो महानभूत। राजम् जय जयेत्युक्त्वा स्वस्वनाम कथान्ततः राक्षसाः स्वपरे भीमाः प्राकारस्थामहीम् गतान् वानरान् भिन्द्यपालैश्च शूलैश्चैव व्यदारयन् वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीम् गताः राक्षसान् पातयामा सुःखमाप्लुत्यस्व बाहुभिः स सम्प्रहारस्तु मुलो मां स शोणितकर्दमः रक्षसाम् वानराणाम् च सम्बभूवाद्भुतोपमः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशत् सर्गः